भद्रोवाच नारी परमधर्मज्ञा सर्वा भर्तृविना कृता पतिं विना नसा जीवति या न जीवति दुःखिता पतिं विना मृतं श्रेयो नार्या क्षत्रियपुङ्गवा त्वद्गतिं गन्तुमिच्छामि प्रसीदस्वनयस्वमाम् मां त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे प्रसादं कुरु मे राजन् इतस्तोर्णं नयस्व मां पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च त्वामहं नरशार्दूला गच्छन्तमनिवर्तितुं छायेवानुगता राजन् सततं वशवर्तिनी भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता राजन् कष्टाहृदयशोषणाः आधयोभिभविष्यन्ति त्वामृते पुष्करेक्षणा अभाग्ययामया नूनं वियुक्ता सहचारिणः तेन मे मुहूर्तमपि जीवति दुःखं जीवति सा नरकस्थेव पार्थिवा संयुक्ता विप्रयुक्ताश्च पूर्वदेहे कृतामया तदिदं कर्मभिः पापैः पूर्वदेहेषु सञ्चितम् दुःखं मामनुसम्प्राप्तं राजंस्त्वद्विप्रयोगजम् अद्य प्रभृत्यहं राजन् कुशसंस्तरशायिनी भविष्याम्य सुखाविष्टदर्शनपरायण